हरि ओम् श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवत महापुराणे एकादश स्कन्धे एकोनविंशोऽध्यायः शुक उवाच सन्देहोऽयम् महाराज वर्तते हृदये मम माया मध्ये वर्तमान स कथं निःस्पृहो भवेत् शास्त्रज्ञानं च सम्प्राप्य नित्या नित्यविचारणम् त्यजते न मोहं स मुच्यते नरः अन्तर्गतम् तमच्छेतुम् छात्राद्बोधो हि न क्षमः यथा नश्यति तमः कृतया दीपवार्तया अद्रोहसर्वभूतेषु कर्तव्य सर्वदा बुधैः स कथं राजशार्दूल गृहस्थस्य भवेत् तथा वित्तैषणान्न ते शान्त राज्य सुखैषणा जयेषणा च संग्रामे जीवन्मुक्तः कथं भवे चौरेषु चौरबुद्धिस्तु साधुबुद्धिस्तु तापसे स्वपरस्थं त्वाप्चस्ति विदेहस्तं कथं नृपे कटो तीक्ष्णकषायाम्रेप्सि शुभान् शुभान् शुभेषु रमसे चित्तं न शुभेषु तथा नृपे जाग्रवप्न सुयुक्ते च तव राजन् भवन्ति अवस्था तु यथा कालं तुरीया तु कथं नृपदाैश्वर सर्वे व्यवशगा मम चैव सर्वेषां मन्यसे त्वं न मन्यसे सदा राजन् मुदितो विमनास्त मालायां च तथा सर्पे समद्रुक्व नृपोत्तमः विमुक्तस्तु भवेद् राजन् ताज मकान एक सर्वत्र एकात्मुद्धि हितकुषु न मेद्य रे चिम गृहधारादीजु क्वचि एक निपृहो चरेयमीति मे मतिसंगो निर्मशात पत्र मूल पलाशन भगविचा निर्द्व निष्परीग्रह किम्बे गृहेण वित्तेन भार्यया च सुरूपया विरागमनस कामं गुणाति तस्य पार्थिव चिन्तसे विविधाकारं नाना रागसमाकुलं दम्भोऽयं किल ते भाति विमुक्तोऽस्मि इति भाषते कदाचित् चतुर्जा चिन्ता धन च कदाचन कदाचित् चन्नया चिन्ता निश्चिन्तोऽसि कदा नृप वै ये मुनयो मिता राजितव्रताः तेऽपि मुह्यन्ति संसारे जानन्तोऽपि असत्यताम् तवमुष्य समुत्थानां विदेहा इति भूपते कुटिलं नाम, नाम जानीहि नान्यथेति कदाचन विद्याधरो यथा मूर्खो जन्मन्धस्तु दिवाकर लक्ष्मीधरो दरिद्र च नाम ंशोद्भवा ये ये मया नृपा विधेया इति विख्याता नामत कर्मतो न ते नमि नामा भवद्राजा पूर्वं तव वैकुले नृप यथार्थं स तु राजसि वसिष्ठं च गुरुमुनिं निमन्त्रयामा स तदा तम्बुवा मुनि निमन्त्रितोऽस्मि यज्ञार्थं देवेन्द्रेणाधुना कृत्वा तस्य मखं पूर्णम् करिष्यामि तवापि वै तावत् पृष्ट राजेन्द्रसंभारम् तू शनैः शनैः इत्युक्तानिर्योथ महेन्द्रयजने भुमुनिभिरन्यं गुरुं कृत्वा चकार मखमुत्तमम् तत् श्रुत्वा कोऽपि दोत्यर्थं पुनः शशाप च पतस्थे गुरुलोपक राजापि तं शशापाथ तवापि च पतत्वयम् अन्योन्यशापात् पतितौ तवेव च मया श्रुतं विजेहेन च राजेन्द्र कथं शप्तु गुरुस्वयं विनोद इमे चित्ते विभाति नृपसत्तम जनक उवाच सत्यम् मुक्तम् त्वया नामिथ्या तथापि शृणु विप्रेन्द्र गुरुर्मपूजितः पितृसङ्गं परित्यज्यं गन्तुमिच्छति मृगैस्सह सुसम्बन्धो भविता तेन समुचय महाभूतानि सर्वत्र निसङ्गक्व भविष्यति आहारार्थं तदा चिन्ता निश्चिन्तास्य कथं रे दण्डाजिन कुदा चिन्ता यथा तव वनेऽपि च तथैव अद्य चिन्तायानस्य वा विकल्पो वा दूरदेशं प्रशष्टं नमे विकल्प विकल्प सन्देहो निर्विकल्पोऽस्मि सर्वथा सुखं स्वपीमि विप्रायं सुखं त्वं भुञ्जामि सर्वथा न बद्धोऽस्मि इति बुद्ध्याम् सर्वदैव सुखी मने सन्तु दुःखी सदैवासि बद्धोऽहम् इति इति शङ्कां परित्यज्य सुखी भयितः देहोऽयं मम बन्धोऽयं न ममेति च मुक्तता तथा धनं गृहम् राज्यं न ममेति च निश्चय श्रुत उवाच तच्छ्रुत्वा वचनं तस्य सुखप्रीतमना भवेत् अपृच्छ तं च घर्मु आगच्छन्तं सुखम् दृष्ट्वा व्यासोऽपि सुखमाप्तवान् आलिङ्ग्याघ्राय मूर्धानम् तत्र च कुशलं पुनः स्थितं स्थितस्तत्रा श्रमे रम्ये पितुः पार्श्वे विशारदः जनकस्य दशां राज्यस्थस्य महात्मनः सनिवृत्तिं परां प्राप्य पितरश्रमसंस्थितः पितॄणां सुगृध कन्या पीवी शतैश्चकार्य पत्नी तां योगमार्ग स्थितो सस्तस्यां जनयामास पुत्रान् चतुरेव हि कृष्णं गौरप्रभं चैव भूरिं देव श्रुतं तथा कन्यां कीर्तिम् समुत्पाद्य व्यासपुत्र प्रतापवान् ददो विभ्राजपुत्राय प्रणुहाय महात्मने अणुहस्य सुत श्रीमान् ब्रह्म प्रतापवान् ब्रह्मज्ञ पृथ्वीपाल शुककन्यासमुद्भवे कालेन केता तत्र नारद्यस्य उपदेशतः ज्ञानम् परमखं प्राप्य योगमार्गम् अनुत्तमम् पुत्रे राज्यं निधायाथ गतो बदरिकाश्रमम् मायाबीजोपदेशेन तस्य ज्ञानं निरगलम् नारदस्य प्रसादेन ना जातं सद्यो विमुक्तिरम् कैलास शिखरे रम्ये त्यक्त्वा सङ्गं पितुः शुकः ज्ञानमास्थाय विपुलं स्थितसङ्गिरे शृङ्गात् सिद्धिं च परमां गतः आकाशगो महा तेज वीरराज यथा रवि गिरे शृङ्गं दीरा जातं तदा उत्पाता बहवो जाता शुकश्चाकाशगो भवत् अन्तरिक्षे यथा वायुः न सुदर्शिभिः तेजसा ती विराजन् वै भास्करः व्यासस्तु विराकान्तः कन्दन् पुत्रे इति चासरोत् गिरे शृङ्गे गतस्तत्र शुको यत्र स्थितो भवेत् क्रन्दमानं तथा दीनम् व्यासं मत्वा समाकुलम् सर्वभूत गतः साक्षी प्रतिशब्द मदात्पदा तत्राद्यापि गिरे पति शब्द स्फुटो भवेत् रुदन्तं तं समालक्ष्य व्यासं शोकसमन्वितम् पुत्र पुत्रे इति भाषन्तं विरहेण परिपृतम् शिव तत्र समागत्य पाराश्चर्यम् अबोधयत् व्यास शोकम् मा कुरुत्वम् पुत्रस्य योगवित्तमः परमाङ्गतिमापन्नो दुर्लभां च कृतात्मवि तस्य शोको त्वया शोकं विजानत किञ्चित् ते तेन पुत्रेण चानक व्यास उवाच न शोको याति देवे किं करोमि जगत्पते अतृप्ते लोचने मेद्य पुत्र दर्शनलालसे वा देव उवाच छायां द्रक्षसि पुत्रस्य पार्श्वस्थां सुमनोहरां तं वीक्ष्य मशादूरय शोकं जहि परन्दपय श्रुत तदा तदर्श व्यासस्तु छायाम् पुत्रस्य सुप्रभातम् दत्त्वा वरम् हरस्तस्मै तत्रैवान्तरधीयते अन्तर्हिते महादेवे व्यास स्वाश्रममभ्यगत शुकस्य विरहेणापि तप्त परमदुःखितः इति श्रीमद्देवी भगवते मा पुराणे अष्टादशसहस्र्याम् संहितायां पदमस्कन्धे शुकस्य विवाहादिकार्यवर्णनम् नाम एकोनविंशविंशोऽध्याय श्रीजगदम्बिकायार्पणमस्तु